अथ ठर्ग लंकायां कृत कर्म घोरम दृष्ट् भयाव राेन्द्रोहनता शक्रेणे महात्मना अब्रवी द्राक्षसा सर्वान््रिया किंचिदवाखा धर्शिता प्रवेशा चंका दुष्प्रसहा पुरी तेन वानरमा दृष्टा सीता चानक चा प्रासादो धर्षितश्चैत्यः प्रवराराक्षसा हताः आविला च पुरी लङ्का सर्वा हनुमता कृता किम् करिष्यामि भद्रम् वः किम् वो युक्तमनन्तरम् उच्यताम् नः समर्थम् यत्कृतम् च सुकृतम् भवेत् मन्त्रमूलम् च विजयम् प्रवदन्ति मनस्विनः तस्माद्वैरोचये मन्त्रम् रामम् प्रति महाबलाः त्रिविधाः पुरुषालोके उत्तमाधममध्यमाः तेषाम् तु समवेतानाम् गुणदोषौ वदाम्यहम् मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैर्मन्त्रनिर्णये मित्रैर्वापि समानार्थैर्बान्धवैरपि सहितो मन्त्रयित्वा कर्मारम्भान् प्रवर्तयेत् दैवे च कुरुते यत्त्वम् तमाहुः पुरुषोत्तमम् एकोऽर्थम् विमृशेदेको धर्मे प्रकुरुते मनः एकः कार्याणि कुरुते तमाहुर्मध्यमं नरं। गुणदोषौ न निश्चित्य त्यक्त्वा दैव व्यपाश्रयम् करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः एवम् मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः शास्त्र दृष्टेन चक्षुषा मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् बह्वीरपि मतिर्गत्वा मन्त्रिणामर्थनिर्णयः पुनर्यत्रैकताम् प्राप्तः स मन्त्रो मध्यमस्मृतः अन्योन्यमतिमास्थाय यत्र सम्प्रति भाष्यते न चैकमत्ये श्रेयोस्ति मन्त्रः उच्यते तस्मात् सुमन्त्रितम् साधु भवन्तो मतिसत्तमा कार्यम् सम्प्रति पद्यम् तमेतत्कृत्यम् मतम् मम वानराणाम् हि धीराणाम् सहस्रैः परिवारितः रामोऽभ्येति पुरीम् लङ्कामस्माकमुपरोधकः तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् तरसा युक्तरूपेण सानुजः सबलानुगः समुद्रमुच्छोषयति वीर्येण यत् करोति वा तस्मिन्नेवम् विधे कार्ये विरुद्धे वानरैः सह हितम् पुरे मम इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे षष्ठः